नारदपुराणम् उत्तरार्धम् अध्यायं सिक्स्टि सेवेन् अथ बदरीमाहात्म्यं प्रारभ्यते मोहिन्युवाच अहोद्विजवराख्यातं गङ्गाद्वारसमुद्भवं माहात्म्यमधुनां ब्रूहि बदर्याः पापनाशनं वसुरुवाचा शृणु भद्रे प्रवक्ष्यामि माहात्म्यं बदरीभवं यत्रुत्वामुच्यते जन्तुर्जन्मसंसारबन्धनाद बदर्याख्यं हरेः क्षेत्रं सर्वपादकनाशनं मुक्तिदं भवभीदानां कलिदोषहरं नृणां यत्र नारायणो देवो नरश्च भगवान् ऋषिः धर्मान्मूर्त्यां लब्धजनी य दुर्गन्धमादनं यत्रास्ति बधरी वृक्षो बहु गन्धफलान्विदः तस्मिन् महाभाग आकल्पादास्ति धौ तपः नारदाद्यै मुनिवर्य कलापग्रामवासिभिः सिद्धसङ्घै परिवृतौ लोकानां स्तुतये स्थितौ यत्राग्नितीर्थं विख्यातं वर्तते सर्वसिद्धिदं महां स्नात्वा शुद्ध्यन्ति पादकाद दुर्वर्णं भाटकं यद्वदग्नौध्मादं विशुध्यति तथाग्नितीर्थ देहि पापौ विमुच्यते चान्द्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः शिलापञ्चापि तत्तीर्थे सन्ति यन्मध्यतस्थितम् अग्नितीर्थं विदिसुदे दर्शनात् तदकापहं नारदो यत्र भगवां तपस्य पे सुदारुणं सा शिला नारदी नाम दर्शनादेवमुक्तिदा नित्यदा यत्र सान्निध्यं भरेरस्ति सुलोचने तत्र नारदकुण्डं च यत्र स्नादो नरश्युचिः भुक्तिं मुक्तिं हरेर्भक्तिम् यद्यद्वाञ्चेत्तु तल्लभेद यदस्यां यो नरो भक्त्या स्नानं दानं सुरार्चनं। होमं जपं तद्धान्यद्वा यत्करोदि तदक्षयं वैनते यशिलाचान्य तस्मिन् क्षेत्रे सुभावहा यत्र तप्तं तपस्तीव्रं गरुडे त्रिंशद्वर्षसहस्राणि हरिदर्शनकाम्यया तदप्रसन्नो भगवान् दधौ तस्मै वरं शुभे अजेयो दैत्यसङ्घानां नागानां च विभीषणः वाहनं भवमे वत्सप्रसन्नोऽकं तवोपरि त्वन्नाम्नेयं शिलाख्यादिं गमिष्यदि महीतले दर्शनाप्तुण्यता नृणां यत्र तत्तं त्वया तपः अत्र गङ्गातीर्थे मत्प्रीतिकाम्यया आविरस्तु महाभागपुण्यदास्नानकारिणाम् पञ्चगङ्गे तु यश्नत्वदेवादीं तर्पयिष्यति न तस्य पुनरावृत्तिर्ब्रह्म लोकात्सनातनादयेवं दत्त्वा वरं विष्णुर्बभूवान्दर्हितस्तदा गरुडोऽप्यज्ञया विष्णुर् स तदप्रभृदि ततीर्थम् जातं पाप विनाशनं पुण्यदं वैस्मरे चापि वैनते यगदिप्रदम् अधान्यादुशिला तत्र वाराहीतिशुभावहा यत्रोद्धृत्यमहीं देवो हिरण्याक्षं निपात्य च शिलारूपेण चाक्रम्य स्थितः तत्र यो मनुजो गत्वा गङ्गाम्भस्यमलेप्लुदः पूजयेतां शिलां भक्ताख्यासन दुर्गतिमाप्नुयात् अधान्या नारसिंहाख्या शिला तत्र सुरेश्वरी हिरण्यकश्यपुं हत्वा स्थितो तद सुरर्षिभिः सर्वैक्रोधस्तस्य निवारितः प्रार्थितश्च विशालायां स्थातुं तत्र सदैव हि चतुर्भुजस्तद्धा तत्र शिलारूपमुपागतः जलक्रीडापरो नित्यं वर्तते सोऽयमध्यगः तत्र यस्नादिमनुजो नृहरे पूजयेच्छिलां सलभेद्वैष्णवं धाम पुनरावृत्तिदुर्लभं पञ्चमीं तु शिलां देवि वह्निकुण्डतडस्थितां नरनारायणाख्यां च वक्ष्यामि शृणु साम्प्रतं कृते युगे तु सर्वेषां नरनारायणो हरिः प्रत्यक्षं वसदे तत्र मुक्तिमुक्तिप्रदायकः त्रेधाय मुनिभिर्देवैर्योगिभिर्दृश्यते शुभे नान्यै समास्तितो योगं लोगस्थितिविधायकः द्वापरे समनुप्राप्ते ज्ञानयोगेन दृश्यते नान्योपायेन केनापि तिष्ये दर्शनतां गतः तदो ब्रह्मादयो देवा ऋषयश्च तपोधनाः स्तुत्वा वाग्भिर्विचित्राभिर्देवं प्रासादयन् हरिं तदो शरीरिणी वाणी प्राकतान्विधिपूर्वकान् कलौ न दर्शनं यामि सर्वधर्मविवर्जिते यदि वो दर्शने श्रद्धा मण्डपस्य सुरेश्वरः गृहीध्वं मामकीं मूर्तिं शैलीं नारदकुण्डगा तदस्तां गिरमाकर्ण्य ब्रह्माद्याहृष्टमानसाः निष्कास्य शैलीं तां दिव्यां मूर्तिं नारदकुण्डगाम् भयामासुरभ्यर्च्य स्वं स्वं धामयुस्ततः वैशाखे मासि ते देवा गच्छन्ति कार्तिके दुसमागत्य पुनरर्चां चरन्ति च ततो वैशाखमारभ्य मानवा हिम मा संक्षयाद लभन्ते दर्शनं पुण्याः पापकर्म विवर्जिताः षण्मासम् दैव दैः पूज्या येवं मानवैस्तथा एवं ये व्यवस्थया मूर्तिस्तत्रभृत्या विराससा यशैलीं प्रतिमां विष्णो पूजयेद्भक्तिभावदः नैवेद्यं भक्षये चापि समुक्तिं लभदे ध्रुवम् पञ्चशिलाः पुण्या विशालायां व्यवस्थिताः आस्तां मध्येदुनैवेद्यं देवानां दुर्लभं हरेहे किं पुनर्मां नुषादीनां भक्षिदमोक्षसाधनं बदर्यां विष्णुनैवेद्यं सिग्धमात्रं च भक्षितं शोधयेदेहगं पापम् दीप्ताग्निरिव काञ्चनं कपालमोचनं छ्येदतीर्थपापविशोधनं जन्मध्येतु शिलाः पञ्चसन्धि पापविमोचिकाः अथ परमः तीर्थमत्रैव शृणुमोहिनी यत्र यत्र स्नादो नरो भक्त्या वेदानां पारगो भवेद सुप्तस्य ब्रह्मणो वक्त्रान्निर्गदानसुरो हरद वेदान् हयशिरा नाम देवादीनां भयावहः ततस्तु ब्रह्मणा विष्णुप्रार्थित प्रकटो भवेद् मत्स्यरूपेण तं हत्वा वेदान् प्रत्यर्पयद्विधेः तच्च तीर्थं महत् पुण्यं सर्वविद्याप्रकाशकम् तैमिङ्गिलम् महाभागे दर्शनात् पावनाशनं हयग्रीवत्स्वरूपेण भगवान् विष्णुरव्ययः पुनश्च हत्वा मत्वौ द्वावसुरौ मधुकैडब्धौ वेदापहारिणौ भूयो वेदान्वै ब्रह्मणे ह्यद ततीर्थं सर्वपापज्ञम् स्नानमात्रेण वैथसि मात्स्ये चापि हयग्रीवे वयतास्ते द्रवरूपिणः वरुतन्ते सर्वदा भद्रे तज्जलम् पावनाशनम् तीर्थमिन्द्रपदम् तत्र विख्यातम् वह्निकोनगम् तत्र स्नात्वा नरो देविपदमैन्द्रमवाप्नुयाद मानसोद्भतकम् चान्य मनोरमम् भिनतिहृदयग्रन्थिं चिनत्यखिलसंशयं हरत्यहंश्च सकलं मानसोद्भेदकं ततः कामाकामाभिदं चान्यतीर्थं तत्र वरानने कामप्रदं कामवदामकामानां तु मोक्षदं तदपस्प किमतो भद्रे वसुधारेदितीर्थकं तत्र स्नात्वा नरो भक्त्या लभते वाञ्छितं फलम् अत्र पुण्यवधो यान्ति दृश्यते जलमध्यगं यद्धृष्ट्वा न पुनर्जन्तुर्गर्भवासंप्रपद्यते ततो नैहृदिग्भागे पञ्चधारापतन्त्यथः प्रभास पुष्करगय्यान्नैमिशारण्यसंज्ञकाः तासु स्नात्वा पृथङ् मर्त्यस्तत्येतीर्थफलं लभेद तदोऽन्यद्विमलं तीर्थ सोमकुण्डापराह्वयं यत्र तप्त्वा तपस्तीव्रं सोम कोडाद्यधीश्वरः तदस्नात्वा नरोभद्रे भद्रे गददोषप्रजायदे तत्रान्यद्वादशादित्यं तीर्थपापहरम् परम् स्नात्वा यत्र नरो भूत्वा तेजसा भास्करोपमः च दुःस्रोदोपरं तत्र धर्मार्थकाममोक्षांश्च लभदे यं यमिञ्चदि अथ सप्तपदम् नाम तीर्थ तत्र मनोहरम् दर्शनाद्यस्य तीर्थस्य पादपानि महान्त्यपि नश्यन्त्य नियतम् तस्य किम् पुनः कुण्डस्य ब्रह्मविष्णुमहेश्वराः अस्ति तस्तत्र मरणान्नरसत्यपदम् लभेद् नरनारायणावासे तीर्थमस्त्यपरं शुभे उवशीकुण्ठनामात्रस्नादोरूपमनोहरः नारायणप्रियोत्यर्थं भवेद्विशुभशङ्करः तदो दक्षिणदिग्भागे तीर्थमस्त्राभिदं परं नरनारायणौ यत्र शस्त्रं न्यस्य तपस्थिदौ आयुधानि तु दिव्यानि शङ्खचक्रादिकानि च मूर्तिमन्दिमहाभागे दृश्यन्ते कृतिभिर्यदः तत्र स्नात्वा नरोभक्त्या न शत्रोर्भयमाप्नुयात् मेरु च तत्रास्ति यत्र दृष्ट्वा धनुर्धरम् स्नात्वा जलभदे सोऽपि शुभे सर्वान् मनोरथान् लोकपालाहवयं नाम तत्रान्यतीर्थमुत्तमं लोकपाल्यैस्तपस्तप्तं यत्र तत्राप्लुतो नरः सर्वतीर्थाप्लुतिफलं लभदे देवि मानवः दण्डेनाहत्य हरिणा यदस्तीर्थं विनिर्मिदं दण्डे पुष्करिणीत्येतदो दोकस्तसौख्यदं भगीरथी यत्र योगं प्राप्ता ह्यलकनन्दया तत्तीर्थं पुन्ये बदरिकाश्रमे तत्र स्नात्वा पितृन् देवान् सन्तर्प्याभ्यर्च्य वैष्णवं धाम सर्वदेव नमस्कृतः सङ्गमा दक्षिणे भागे धर्मक्षेत्रं शुभानने तत्क्षेत्रं पावनं मन्ये सर्वतीर्थोत्तमोत्तमं तत्र स्नात्वा नरो साध्य सन्निधिभाग्भेद उर्वशीसङ्गमन्तीर्थं सर्वपापहरं नृणां कर्मोद्धराह्वयचान्यद्धरि भक्र्येकसाधनं ब्रह्मा वार्ताह्वयं तीर्थं ब्रह्मलोकैककारणं का गङ्गाश्रितानि चैदानि तीर्थानि कथितानि दे ब्रह्मापि आस्नर्यतो वाक्तुं तत्रस्थानि न वै प्रभुः य इदं नित्यं श्रावयेद्वा समाहितः सर्वपापविनीमुक्तः सोऽपि विष्णुपदं लभेद् मासमात्रं नरोभक्त्या तिष्ठे तिष्ठेद्भृतव्रतः साक्षाद्देव पश्येत्तु नरनारायणं हरिम् यत्रै यत्रैतल्लिखितं देवीमाहात्म्यं बदरीभवं नाल्पमृत्युर्भवेत्तत्र क्याधिव्याध्यहिभिस्तथा कल्याणानि सदा तत्र प्रसादसन्धि वै करेः वर्धन्ते सम्पदसर्वास्तथा विष्णुप्रसादतः इति श्री उत्तरभागे, बृहन्दीयपुराणे बृहदुपाख्याभागे नाम, बदरीकाश्रमत्म्यम सप्तम यदि बदरीकाश्रमत्म्यं ओम।